अथ अष्टादशम् दशकम् जातस्य ध्रुवकुल एव तुङ्गकीर्तेरङ्गस्य व्यजनिसुतः स वेन नाम तद्दोषव्यथितमतिः स राजवर्यस्त्वत्पादे निहितमनावनम् गतोऽभूत् कठोरवीर्यः सर्वेभ्यो सम्प्रशंसन् भूचक्रे तवयजनान्ययम् न्यरौत्सीत् सम्प्राप्ते हितकथनायतापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति त्वन्निन्दा वचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामना यिवे नः तन्नाशात्खलजनभीरुकैर्मुनीन्द्रैस्तन्मात्रा चिरपरिरक्षिते तदङ्गे त्यक्ता घे परिमथितादथोरुदण्डाद् दोर्दण्डे परिमथिते त्वमाविरासीः विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुतभावि भूरिवीर्यः वेनार्त्या कबलितसम्पदम् धरित्रीमाक्रान्ताम् निजधनुषा समामकार्षीः भूयस्ताम् निजकुलमुख्यवत्सयुक्तैर्देवाद्यैः समुचितचारुभाजनेषु अन्नादीन्यभिलषितानि यानि तानि आत्मानम् यजति मखैस्त्वयि त्रिधामन् आरब्धे देवेन्द्रम् मुहुरिति वाजिनम् हरन्तम् वह्नौ तम् मुनिवरमण्डले जुहूषौ रुन्धाने कमलभवे क्रतो समाप्तौ साक्षात्त्वम् मधुरिपुमैक्षथा स्वयम् स्वम् तद्दत्तम् वरमुपलभ्यभक्तिमेकाम् गङ्गान्ते कदापि देव सत्रस्थम् मुनिनिवहम् हितानिशंसन् नैक्षिष्ठाः सनकमुखान्मुनीन्पुरस्तात् विज्ञानं सनकमुखोदितम् दधानः स्वात्मानम् स्वयमगमोपनान्तसेवी तत्तादृक्पृथुवपुरीशसत्वरम् मे रोगौघम् प्रशमयवातगेहवासिन् इत्यष्टादशम् दशकम्